हरि श्री सीतारामचन्द्र अभ्याम् नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे चतुरधिकशतमसर्गः रावणेन सारथे भर्त्सनं सारथिना प्रतिवचसा रावणम् सन्तोष्य तदीयरथस्य रणभूमौ प्रापणन् चतुः संक्रुद्धे कृतान्त बलचोदितः क्रोधसंरक्त नयनो रावणः सूतमब्रवीत् हि न वीर्यमिव शक्तम् पौरुषेण विवर्जितम् भीरुं लघुमिव सत्वम् विहीनमिव तेजसा विमुक्तमिव मायाभि अत्रैरेव बहिष्कृतं मामवज्ञाये दुर्बुद्धे त्वया बुद्ध्या विशेषसे किमज्ञा मंदम अन्वेक्ष्य श्रु समय मै चिकाल यशोवी तेज प्रत्ययच विनाशिता शत्रु चे, चे विनाशित प्रख्यात वीर्य रंजनी विक्रमे पश्यतु युद्धलुब्धोऽहम् कृत कः पुरुषस्त्वया यत् त्वम् कथम्भ्यम् मोहात् न चेद्वहसि दुर्मते सत्योऽयम् प्रतितर्को मे परेण तमुपस्कृतः न हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः रिपूणाम् सदृशम् त्वेतत् यत्त्व एतदनुष्ठितम् निवर्तयर्थम् शीघ्रम् यावन्नापैति मेरिपुः यदि या वाद्योषितोऽस्मि स्मर्यते यदि मे गुणः एवम् परशुमुक्ततु हित बुद्धि सूतो हितम् सानो नयम् वचः न भीतोऽस्मि नोपजप्तोऽस्मि शुभि न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया मया तु हितकामेन एषश्च परिरक्षता स्नेहप्रसन्नमनसा हितम् वित्य प्रियम् कृतम् नास्मिन्नर्थे महाराज त्वम् माम् प्रियहिते रतम् कच्चित् लघूरिवा दोषतो गन्तुमर्हसि श्रूयतां प्रतिदास्यामि यन्निमित्तं मया रथ नदी वेगैवम्भोभि संयुगे विनिवर्तितः श्रमं त्वाव गच्छामि महतारणकर्मणा नहि ते वीरसौ मुख्यम् प्रकशं नोपधारये रसोद्वह न भग्नामे रथवाजिनः दीनाघर्म परिश्रान्ता गावो वर्ष हता एव निमित्तानि च यानि प्रादुर्भवन्ति नः तेषु तेष्व भिन्नपन्नेषु लक्ष्याम्यः प्रदक्षिणम् ते च कालौ च विज्ञेयौ लक्षणानिङ्गितानि च दैन्यम् हर्षश्च प्रथीनश्च बलाबलम् फलनिम्नानि भूमे च समानि विषमानि च युद्धकालैश्च विज्ञेय परस्यान्तर्दर्शनम् उपयानापयाने च तानं प्रत्यपसर्पणम् सर्वम् एतत्र तर्थेन नेयं रथ कुटुम्बिना तव विश्रामहेतो तथैषां रथवाजिनाम् रौद्रम् वर्धयताखेदम् क्षमं कृतमिदं मया स्वेच्छया न मया वीर रथोऽयमपवाहितः भक्तु स्नेहपरीतेन मयेदम् यत्कृतं प्रभो अज्ञापाय यथा तत् तं पक्षीषि निषूदन वीर कथा नृण्येन चेतसा सन्तुष्टेन वाक्येन रावण तस्य सारथे प्रशस्यैनम् बहुविधम् युद्धलुब्धो ब्रवीदिदम् कथं शीघ्रम् इमं सूत राघवाभिमुखम् नय न, न, न, न हत्वा स्मरे शत्रुम् निवर्तिष्यति रावणः एवम् भुक्त्वा रावणो राक्षसेश्वर हे ददौ तस्य शुभम् ह्येकम् हस्ताभरणमुत्तमम् श्रुत्वा रावणवाक्यानि सारथी सन्निवर्तते ततो द्रुतम् रावणवाक्यजुरित प्रचोदया साया महात् यान्थ सारथि स राक्षसेन्द्रस्य ततो महारथ कणेन रामस्य रणग्रतो भवेत् इत्यार्थे श्रीमद् रामायणे वाल्मीकि याजकाव्ययुद्धकाण्डे चतुरधिकशततमसर्गः श्रीसीतारामचन्द्रार्पणमस्तु